अथ द्विचत्वारिंशः सर्गः कालधर्मम् गते रामसगरे प्रकृतिजनाः राजानम् रोचयामासु रंशुमन्तम् सुधार्मिकं। सराजासु राजासु महानासीदंशुमान् रघुनन्दन तस्य पुत्रो महानासीद्दिलीप इति विश्रुतः तस्मै राज्यम् समादिश्य दिलीपे रघुनन्दन हिमवत्सिखरे रम्ये तपस्तेपे सुदारुणम् द्वात्रिंशच्छतसाहस्रम् वर्षाणि सुमहायशाः तपोवनगतो राजा स्वर्गम् लेभे तपो धनः दिलीपस्तु महातेजा श्रुत्वा पैतामहम् वधम् दुःखोपहतया बुद्ध्या निश्चयम् नाध्यगच्छत कथम् गङ्गावतरणम् कथम् तेषाम् जलक्रिया तारयेयम् कथम् चैतानिति चिन्तापरोऽभवत् तस्य चिन्तयतो नित्यम् धर्मेण पुत्रो भगीरथो नाम यज्ञे परमधार्मिकः दिलीपस्तु पस्तु त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत् अगत्वा निश्चयम् राजा तेषामुद्धरणम् प्रति व्याधिना नरशार्दूलकालधर्ममुपेयिवान् इन्द्रलोकम् गतो राजा स्वार्जितेनैव कर्मणा राज्ये भगीरथम् पुत्रमभिषिच्य नर्षभः भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दना अनपत्यो महाराजः प्रजाकामः प्रजाः मन्त्रिष्वाधाय तद्राज्यम् गङ्गावतरणे तपो दीर्घम् समातिष्ठद्गोकर्णे रघुनन्दना ऊर्ध्वबाहुः पञ्चतपमासाः रोजितेन्द्रियः तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः अतीतानि महाबाहो तस्य राज्ञो महात्मनः सुप्रीतो भगवान् ब्रह्म प्रजानाम् प्रभुरीश्वरः ततः सार्धमुपागम्य पितामहः भगीरथम् महात्मानम् तप्यमानमथा ब्रवीत् भगीरथमहाराज प्रीतस्तेऽहम् जनाधिपा तपसा च सुतप्तेन वरम् वरयसुव्रता तमुवाच महातेजाः सर्वलोकपितामहम् भगीरथो महाबाहोः कृताञ्जलिपुटस्थितः यदि मे भगवान् प्रीतो यद्यस्ति सगर सत्मज सर्वे मत् सलिमायु गंगाया सलिने भस्मेशा महात्म स्वर्गेत चम देवचे सत्यवीदेकुल इक्वाकूणाकुले देश मेस्त बर पर उतवाक्यं राजलोकतामह प्रत्युवाच शुभाम् वाणीम् मधुराम् मधुराक्षरा मनोरथो महानेश भगीरथ महारथ एवम् भवतु भद्रन्ते इक्ष्वाकुकुलवर्धना इयम् हैमवती ज्येष्ठा गङ्गा हिमवतः सुता ताम् वै धारयितुम् राजन् हरस्तत्र नियुज्यताम् गङ्गायाः पतनम् न सहिष्यते ताम् वै राजन्नान्यं राजन् नान्यम् पश्यामि शूलिनः तमेवमुक्त्वा राजानम् गङ्गाम् चाभाष्य लोककृत् जगामत्रिदिवम् देवैः सर्वैः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विचत्वारिंशः सर्गः